पञ्चत्रिंशोऽध्यायः भीमसेन उवाच सन्धिम् कृत्वैव कालेन ह्यन्तकेन पतत्त्रिणा अनन्तेनाप्रमेयेण स्रोतसा सर्वहारिणा प्रत्यक्षम् मन्यसे कालम् मर्त्यः सन् धर्मा महाराज फलधर्मा तथैव च निमेषादपि कौन्तेय यस्यायुरपचीयते सूच्ये वाञ्जनचूर्णस्य किमिति प्रतिपालयेत् यो नून ममितायुः स्यादथवापि प्रमाणवित् स वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान। दर्शिवान् कालोन कालो न समाराजम् स्त्रयोदश कृत्वा मरणायोपनेष्यति शरीरिणाम् हि मरणम् शरीरे, शरीरे नित्यमाश्रितम् प्रागेवमरणात् तस्मात् राज्यायैव घटामहे योनयाति न याति प्रसङ्ख्यानमस्पष्टो भूमि वर्धनः अयातयित्वा वैराणि सोऽवसीदति गौरिव यो न यातयते वैरमल्पसत्त्वोद्यमस्पुमान् अफलम् जन्म तस्याहम् मन्ये दुर्जातजायिनः हैरण्यौ बाहू श्रुतिर्भवति पार्थिवी हत्वा द्विषन्तम् संग्रामे भुङ्क्व वसु हत्वा वै पुरुषो राजन्निकर्तारमरिन्दम अह्नाय नरकम् गच्छेत् स्वर्गेणास्य स